श्रीहरये नमः अत द्वादशोऽध्यायः ऋषिरुवाच एवं जिहासो नृपदेहमाजो मृत्युं वरं विजयान्मन्यमानः शूलं प्रहृद्या यथा महापुरुषं कैडभोप्सु ततो युगान्धाग्निकठोरजिह्वम् आविद्यशूलं तरसा सुरेन्द्रः छित्वा महेन्द्राय विनध्यवीरो हतोऽसि पापेति रुषा जगद निरीक्षदुप्रेक्षमजात विक्लवः वज्रेण वज्रीशतपर्वणश्चिन भुजं शतस्य मुरगराजभोगं चिन्नैकबाहुपरिघेण वृद्धः संरब्ध आसाद्य गृहीतवज्रं हनौ तदोढेन्द्रं मथामरेभं वज्रं, वज्रं च हस्तान्यपधन्मको वृत्रस्य कर्मातिमहाद्भुतं तत् सुरा सुराश्चारणसिद्धसङ्घः आपूजयस्तत्पुरुहूतसङ्कटं निरीक्षहा हे विशुक्रसुर्दृशम् इन्द्रो न वज्रं स्वहस्तात् अरिसन्निधौ पुनः तमाखवृत्रो हर आत्थ वज्रो जहिष्वशत्रुतं न विषाधकालः युयोत्सतां कुत्रचित् आततायिना जयः सधैकत्र न वै परात्मना विनैकमुत्पत्तिलयस्थितिश्वरं सर्वज्ञमाद्यं पुरुषं सनातनं लोकाः सपाला स्वसन्ति विवसावसे द्विचायिवसि सकाल इह कारणम् ओजः सहो बलं प्राणमृतं मृत्युमेव च तमज्ञायजनोहेतुमात्मानं मन्यते जटं यथा धारुमयी नारी एवं भूतानि मघवन् ई सतन्त्राणि पुरुषप्रकृतिर्व्यक्तम् आत्मा भूतेन्द्रियासयाः शक्नुवन्त्यस्य सर्गातो न विना अविद्वाने आत्मानं अविद्वानेवमात्मानं मन्यते नीसमीश्वरं भूतैः सृजति भूतानि ग्रसते तानि तैः स्वयम् आयुश्रीकीर्तिरैश्वर्यम् आशिषः पुरुषस्य याः भवन्त्येव हि तत्काले यथा निश्चोर्विपर्ययाः तस्मात् कीर्तियससोर्जय अप जययोरपि समस्यात्सुगतुःकाभ्यां मृत्युजीवितयोस्ततां सत्वं रजस्तमयिति प्रकृतेर्नात्मनो गुणाः तत्र साक्षिणमात्मानं यो वेदन सभद्यते पश्य मां निर्जितं शक्र वृत्णायुधभुजं मृदे घटमानं यथाशक्तिं तव प्राणजिहीर्षया प्राणग्लहोऽयं समर इश्वशोवाकनासनः अत्र न मुष्य जयो मोष्यपराजयः श्रीशुक उवाच इन्द्रोभृत्रवचः श्रुत्वा गतालीकम् अभूजयत गृहीतवज्रप्रहसन्तमाहगतविस्मयः इन्द्र उवाच अहो दानवसिद्धोऽसि यस्य ते मतिरीदृशी भक्तसर्वात्मनात्मानं सुहृदं जगदीश्वरं भवानतार्षीन्मायां वै वैष्णवीं जनमोहिनीं यद्विहाया सुरं भावं महापुरुषतां गतः कल्विधं मगधाश्चर्यं यत् जः प्रकृतेस्तवा वासुदेवे भगवति सत्त्वात्मनि दृढा मतिः यस्य भक्तिर्भगवती हरौ निःश्रेयशेश्वरें विक्रीडितो मृताम्भूतौ किं शूद्रैकातकोधकैः श्रीशुक उवाच एते ब्रुभाणौ अन्योन्यं धर्म जिज्ञासया नृप युयुधा ते महावीर्यौ इन्द्रवृत्रौ युधाम् आविद्यपरिघं वृत्र काष्णाय समरिन्धमः इन्द्राय प्राहिणोद्घोरं वामहस्तेन मारिषा स तु करं च करभोपमं चिच्छेदयुगभद्देवो वज्रेण सतपर्वणा धोर्भ्यामुत्कृतमूलाभ्यां बभौ रक्तश्रवो चिन्नपक्षो यथा गोत्र का भ्रष्टो वज्रिणाहतः कृत्वा धराह्नुं भूमौ दैत्यो दिव्योत्तरां हनुं नभो गम्भीरवक्त्रेण लेलिहोल्भणजिह्वया दंष्ट्राभिकालकल्पाभिर्ग्रसन्निव जगत्त्रयम् अतिमात्रमहाकाय आशिपंस्तरसा गिरीन् गिरिराड्पादचारीव जग्राजः समासाद्य वज्रिणं सखवाहनम् महाप्राणो महावीर्यो महाशर्पयिव द्विपम् व्रत्रग्रस्तम् तमालक्ष्य सभ्रजापतयः सुराः हा कष्टमिति निर्विण्णाः शुक्रुशो समहर्षयः निगीर्णोऽप्यसुरेन्द्रेण न म मा रोधरं गतः महापुरुषसन्नद्धो योगमायाबलेन च निगीर्णोऽप्यसुरेन्द्रेण न ममारोधरं गतः महापुरुषसन्नद्धो योगमायाबलेन च भित्त्वा वज्रेण तत्कुशिं निष्क्रम्य बलभिद्विभुः उच्चकर्तशिरशत्रोर्गिरिशृङ्गमिव वोजसा वज्रस्तु तत् गन्धरमासुवेघ क्रन्तन् समन्तात्परिवर्धमानः न्यपादयत्तावदहर्गणेन यो ज्योतिषामयेन तथा च हेधुन्दुभयो विनेधोर्गन्धर्वसिद्धासमहर्षिसङ्घाः वार्द्राग्नलिङ्गैस्तमभिष्टुवान मन्त्रैर्मुधा कुसुमयभ्यवर्षन् वृत्रस्य देहान्निष्क्रान्तम् आत्मज्योतिररिन्दमा पश्यतां सर्वलोकानाम् आलोकं समबद्यथा इति श्रीमद्भागवते महापुराणे षष्ठस्कन्ते वृत्रवथो नाम द्वादशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुनाथमहराज के जय